सर्वेषाम् स्वागतम् अवस्तु महोदय भवान् प्रार्थनया आरम्भं करोति वा आम् भगिनी वदतु कृपया सरस्वती नमस्तुभ्यं वरदेकामरूपिणी विद्यारम्भम् करिष्यामि सिद्धिर्भवतु मे सदा श्रीगुरुभ्यो नमः हरि ओम् ओम धन्यवादाः धन्यवाद। अस्तु इदानीम् अस्माकम् एकः लघु विषयः अस्ति अपेक्षया इति तस्य समापनं कृत्वा अनन्तरं वयं चेत् नो चेत् इति एकः विषय तस्य अध्ययनं कुर्मः प्रथमतः तु अपेक्षया इति किमस्ति अपेक्षया अपेक्षया इत्युक्ते किम् एकनिमिषम् एकवारं पश्यामि के के जनाः अङ्गताः अस्तु अस्तु स्क्रीन शेयर करोमि अपेक्षया दृश्यते स्क्रीन् दृश्यते भगिनी दृश्य दृश्यते दृश्यते अम्बिका अम्बिकापठिमहोदय भवान् पठति वा आम् धन्यवादः अपेक्षया आवरणे विद्यमान पदस्य महाय्येन वाक्यानि लिखतु उदाहरणं विजयस्य अपेक्षया निय विनयः उन्नतः अत्र वाक्ये वि... किं दत्तमस्ति विजयः अस्ति विनयः अस्ति द्वयोः मध्ये तुलना औन्नत्यम् इति विषयः कः उन्नतः विजयः उन्नतः अधिकमात्रेण वा विनयः तत्र कथम् वाक्यम् निष्पद्यते विजयस्य अपेक्षया विनतः विनयः उन्नतः अत्र अपेक्षया शब्दस्य योजनेन किम् भवति विजयशब्दस्य षष्ठी भवति विजयस्य म गणेश तजय से षी विभक्तिवये अपेक्षाया विन उन्न तथा किंस्र्तव्यमेक्षद योजन यदा युत अपेक्षाया शब्स योजना तदा तत्र षष्ठीविभक्ति उपयुज्य षष्ठिविभक्ति उपयुज्य एवं वाक्यं सिद्ध्यति अपेक्षया शब्दस्य योजनया तत्र षष्ठी विभक्ति अपेक्षितम् इति षष्ठीविभक्ति विभक्तेः प्रयोगम् अपेक्षितम् इदानीं द्वितीयं वाक्यं पठति वा अम्बिकापतिमहोदयवाक्यं मधुसूदनस्य अपेक्षया समिरः चतुरः योग्यम् योग्यम् अग्रिमम् अग्रिमं मधुरं सोरि मधुवंशः अपेक्षया रामायणं बृहत् <laughs> वाक्यं कथं भवति रघुवंश रघुवंशस्य रघुवंशस्य अपेक्षया रामायणं बृहत् काव्यम् अग्रिमम् अग्रिमं मम गृ गृहस्य अपेक्षया भवतः गृहम् विशालं भवतः गृहं विशालं मम गृहस्य अपेक्षया योग्यम् अग्रिमम् अग्रिमं वेंक वेङ्कलूरु बेङ्गलूरु बेङ्गलूरु अपेक्षया मैसूरुनगरं सुन्दरं सुन्दरम् अनन्तरम् Uh, लेखनस्य अपेक्षया भाषणं सुलभम् ओके okay. uh, उमायाः अपेक्षया अपर्णा कृष् कृशा उमायाः कथम् उमायाः आगच्छति आकारान् उमायाः अकारान्तशिरङ्गी अस्ति चेत् मालायाः गीतायाः उमायाः अकारान्तपुल्लिङ्गे अस्ति चेत् गणेशस्य रामस्य एवं भवति योग्यम् उत्तममस्ति महोदय अत्र धन्यवादः अस्माकं जालपुटे किं दत्तमस्ति चेत् तस्य अपि एकवारं पठनं कुर्मः अनन्तरम् अग्रेसरे रमणीभगिनी भवती पठति आं भगिनी आम् अपेक्षया ध्यानेन ना पठतु नागराजः ह्यः अपेक्षया अद्य शैत्यम् अधिकं खलु एकचन्द्र अत्र सम्भाषणमस्ति भवती नागराजस्य यद्दत्तमस्ति तत् पठतु जयन्ती भगिनी चन्द्रकान्त एवं भगिनि आम् चन्द्रकान्तः आम् गतवर्ष अपेक्षया एतस्मिन् वर्षे एव शैत्यम् अधिकम् गतवर्ष गतवर्षापेक्षया अस्मिन् वर्षे वृष्टिः अपि अधिका अस्ति आम् पू पूर्व पूर्वापेक्षया इदानीं परिसरमालिन्यम् अधिकम् अतः एतत् एतत् सर्वं सम्भवति अत्र पर्यावणस् पर्यावरणस्य विषये परिसरस्य विषये अपि दत्तमस्ति नागराजः किं वदति यः अपेक्षया अद्य दिने अद्य दिने शैत्यम् अधिकं अपेक्षया पूर्वस्मिन् दिने शैत्यम् अद्यदिनस्य शैत्यं शैत्यं द्वयोः मध्ये अद्य शैत्यम् अधिकं ह्यः अपेक्षया इति नागराजः वदति अनन्तरं चन्द्रकान्तः सः अपि वदति एतस्मिन् वर्षे अधिकं शैत्यं गतवर्ष गतवर्षस्य अपेक्षया तत्र गतवर्षापेक्षया इति दत्तमस्ति परन्तु तत्र गतवर्षस्य अपेक्षया एतस्मिन् वर्षे शै शैत्यम् अधिकम् अनन्तरं नागराज वदति गतवर्षापेक्षया अस्मिन् वर्षे वृष्टिः अपि अधिका भवति अधिका अस्ति अनन्तरं चन्द्रकान्तः वदति परिसरमालिन्यम् अधिकम् पूर्वापेक्षया परिसरमालिन्यम् अधिकम् अतः एतत् सर्वं सम्भवति जयन्ति पूर्वापेक्षया इदानीं परिसरमालिन्यम् अधिकम् इत्युक्ते hmm. कः अर्थः अत्र पूर्वापेक्षया पुरान पुरातनकालस्य अद्य दिनस्य अट्मास्फियर् मलिनं भवति अतः अधिकं सम्भवं भवति इत्युक्ते तत्र तुलना कुत्र अस्ति पूर्वकाले किम् अभवत् इदानीन्तनम् एकस्मिन् काले किं प्रचलति अत्र परिसरमालिक्य अतः पूर्वापेक्षया पिसरमालि अतः इतनी वृष्टि अतिका वृष्टि अकम शैत्यं चंद्रकांत मन विशेष अपेक्षा रमी भगिनी पटो विशेष अपेक्षा हाँ विशेष अपेक्षा यदा द्वो तोल आधिक्यं न्यूनता वा उच्यते तदा अपेक्षया इत्यस्य उपयोगः क्रियते उदाहरणं okay. बकासुरस्य अपेक्षया भीमः बलवान् mm -hmm. अत्रापि बकासुरषष्ठि भी। बकासुरः भीमः बलासुरात् बलवान् आसीत् सत्यं परन्तु अपेक्षया इति योजना भवेत् चेत् किं भवति तस्य षष्टिविभक्तिः आगच्छति षष्टिविभक्ति यदाहं वदामि भीमस्य अपेक्षया बकासुरः तत् कथं भवति वाक्यम् एकवारं वदतु भगिनी भीमस्य अपेक्षया बकासुरः भीमस्य अपेक्षया बकासुरः बलवान् नासीत् न ना आसीत् नो चेत् बलहीनकृशः बलहीन भीमस्य भीमस्य अपेक्षया बकासुरः बलहीनः आसीद् सत्यम् अभ्यासः अपि आरम्भः पाश्वे? पार्श्वे चित्रद्वयं दष्टम् अस्ति अतः तत्सम्बन्धिनि सम्बन्धीनि विवरा विवराणि अपि सूचितानि सन्ति <laughs> एताद् एतदाधारेण अधः <laughs> निर्दिष्टानां प्रश्नानाम् उत्तराणि अपेक्षया इति पदेन युक्तेन वाक्येन लिखन्तु अत्र <laughs> एकं वक्तुमिच्छामि तत्र अस्माकं तत् विषयः इदानीं साम्प्रति तु नास्ति परन्तु एतत् वदामि अत्र एतदाधारेण इति दृश्यते वस्तुतः तत् किमस्ति एतत् आधारेण इति अस्ति एतत् आधारेण तस्य भवति एतदाधारेण तत्र एतत् आधारेण इति अत्र एकं व्याकरणबिन्दुः एकः अस्ति अत्र तत् अस्माभिः स्मर्तव्यं किमस्ति तत् तकार पद यहाँ वर्ण तर्ग से तृतीय वर्ण भविम अर्दातेत पदम पदस कि वर्ण के वदतु रमणी भगनी त र्ग इति अस्ति खलु तवर्ग तत्तवर्गे के के वर्णाः तवर्गे त योग्यं तवर्गे प्रथमः अक्षरः त प्रथमः वर्णः त पदान्ते यदा त इति आगच्छति चेत् तकारस्य तृतीयवर्ण त भवति भवितुम् अर्हति अतः तत्र एतत् शब्दस्य एतद् भूत्वा एतत् अधिक आधारेण एतदाधारेण यत्र कुत्रापि तत्र तादृशी स्थितिः अस्ति तत् अस्माभिः स्मर्तव्यम् अस्तु तत् प्रथमवर्णस्य तृतीयवर्ण इति व्याकरणबिन्दु अहम् उक्तवती तावदेव पार्श्वे चित्रद्वयमस्ति विवरणम् अपेक्षया शब्दस्य योजनेन भवति एक हा एकः मोहनः एकः अर्जुनः हा इदानीं तत्र हा, हा। एतत् एतानीं एता नास्तु एता एता एता हा एतत् पठतु एतयोः पठतु एतयोः कः उन्नतः स्थूलः हा। प्रथमः मोहनस्य अपेक्षया अर्जुनः स्थूलः मोहनस्य भाषया स्थूलः इति दत्तमस्ति अनन्तरम् अनन्तरम् एतयोः कः कृशः कः कृशः एक कृशः मोहनः कृशः मोहनः कृशः तस्य भारार्जुनस्य उक्तमस्ति कृशः अर्जुनः अपेक्षया मोहनः कृशः सम्यक् अनन्तरम् एतयोः एतयोः कस्य परिसरप्रीतिः अधिका न कस्य वेतनम् अधिकमिति अस्ति खलु दृश्यते न एतयोः दृश्यते एतयोः कस्य वेतनम् अत्र पश्यतु किमस्ति एतयोः अर्जुनस्य वेदनम् अधिकम् अस्ति अर्जुनस्य वेतनम् अधिकमस्ति अर्जुन वेतनम् अधिकमस्ति न भगिनी मोहनस्य वेतनम् अधिकं परन्तु मोहनः तु लिपिकार इति दृश्यते अर्जुनः तु अधिकारी दोषः अस्ति इति मन्ये अस्तु तत् त्यजामः हा एतयोः कः अग्रिमं हा एतयोः कस्य भारः एतयोः कः ज्येष्ठः कः ज्येष्ठनियर् सीनियर् ज्येष्ठ मोहनः ज्येष्ठः एतयोः मोहनः ज्येष्ठः चत्वारिंशत् वर्षाणि मोहनः अर्जुनः हा। ज्येष्ठ सम्पूर्णवाक्यं त्रिंशत् आं भगिनि सम्पूर्णवाक्यम् अर्जुनस्य अपेक्षया अर्जुनस्य अपेक्षया अपेक्षया मो अपेक्षया मोहनः ज्येष्ठः अग्रिमम् ए अग्रिमम् एतयोः कस्य भारः अधिकः एतयोः एतयोः द्वे द्वे वर्षे मयः अधिकः न भार दी, दी भा, भार चवि भार अर्जुनस्य भारा अष्टपञ्चाशत् मोहनस्य मोहनस्य द्वि द्विचत्वारिंशत् अतः द्विचत्वारिंशत् कस्य भा भारः अधिकः अर्जुनस्य भारा अधिकः मोहन अर्जुनस्य भारः अधिकः अर्जुनस्य भारः अधिकः अपेक्षया उपयुज्य वाक्यं वदतु भगिनी हा अर्जुनस्य अपे मोहनस्य अपेक्षया अर्जुनस्य भारः अधिकः पर्याप्तं धन्यवादः धन्यवादः धन्यवादः अग्रिमं जयन्ति भगिनि पूर्णं करोतु तत्र एतयोः कस्य परिसरप्रीतिः तथा आरभ्य आं वेणी एतयोः कस्य परिश परिसरप्रीतिः अधिकाः परिसर आम् प्रथमश्रेष्ठ अधिकारी ऐ मीन् मोहनस्य अपेक्षया अर्जुनस्य परि अर्जुनस्य परीक्षायाम् अधिक परिसरप्रीति परिसरप्रीति इत्युक्ते परिसरप्रीति इत्युक्ते स्थानं स्थान इत्युक्ते निसर्ग निसर्गविषये निसर्ग निसर्गप्रेमी निसर्ग इति परिसरप्रीति yup> अधिकार अत्र आसक्तिविषये दत्तमस्ति खलु आसक्तिः विषये किमस्ति मोहनः परिसर क्रीडामि क्रीडा मोहनस्य अधिका मोहनस्य अपेक्षया अर्जुनः अर्जुनस्य परिसरप्रीतिः अधिका एवं योग्यम् अग्रिमम् एतयो कस्मिन् मधुरप्रीतिः अधिका मधुरप्रीति चाय प्रियखाद्यम् अधिकं मधुरं खादति शुष्कुली लङ् शुष्कुली आम् मोहनस्य अधिक मो मोहनस्य अपेक्षया अर्जुनस्य मधुरप्रीतिः अधिका शष्कुली इत्युक्ते पेस्ट्री इति खलु शष्कुली शष्कुली इत्युक्ते ऐ ऐ थाट् ऐ मीन् मुरुकुबेनि इत्युक्ते स्वीट् खलु इत्युक्ते किं भगिनिक् श्कुली इत्युक्ते पेस्ट्री देट् ऐसिङ्ग् एण्ड् देट् क्रीमि क्रीमि देट् थिङ्ग् विच् इस् अवेलेबल् एट् बेकरी ऐ थिंक् सो सो देट् इस् मोर् लाट् आफ् शुगर् इस् एडेड् खलु तत्र इति अहं मन्ये शष्कुली इत्युक्ते देट् आफ़् थिङ्ग् विच् इस् लड्डुकः इत्युक्ते मधुरं भवति किल अतः अहम् उक्तवती अस्तु तत् किञ्चित् सन्देहः वर्तते लड्डुकः यदि गृहे वयं निर्मायामः निर्मयामः चेत् तत्र गुडस्य तत्र अधिकं मधुरं न परन्तु इति तत्र अस्माकं अत्र एतद् विषये अहं न एतस्मिन् विषये अहं न जानामि अतः अस्तु भगिनी अपेक्षया अर्जुनस्य अपेक्षया मोहनः अधिक मधुरप्री मोहनस्य मधुरप्रीतिकी अधि अधिका अधिका अधिका बुद्धिमान. कः बुद्धिमान् बुद्धिमान् वित्तकोषधनं शक्तिः परिसरः क्रीडा अर्जुनस्य अपेक्षया मोहनः मोहनः मोहनः किं चतुरः वा देनि बुद्धिमान् बुद्धिमान् परन्तु अत्र सत्यं वाक्यं तु सत्यमस्ति परन्तु तत्र प्रथमस्थानं प्रथमश्रेणी इत्युक्ते बुद्धिः तुलना अङ्कैः सह कृतमस्ति तत्तु समीचीनम् इति अहं मन्ये अस्तु अस्तु एतयोः एतयोः कः अधिकं व्यायम् अधिकं व्याय करोति उच्चः भगिनि ब्रेड् भवत्याः उद्योगः उच्चः इति एतयोः कः अधिकं व्यायं करोति इत्युक्ते ऐ मीन् एतयोः कस्य उद्योगः उच्चः हा सारी बेनि एकवाक्यम् अहं त्यक्तवती उद्योगः वित्तकोशधनं मोहनस्य अपेक्षया अर्जुनस्य अर्जुनस्य न परन्तु पश्यन्तु अत्र कस्य उद्योगः उच्चः इत्युक्ते किम् अभिप्रेतमस्ति अत्र न न योग्यम् इति न साधु तत्र एकः लिपिकारः अस्ति एकः अधिकारी अस्ति इत्युक्ते कस्य उद्योगः उच्चः यः अधिकारी अतः तस्य उद्योगः उच्चः इति अपेक्षा उत्तरस्य परन्तु एतदपि न योग्यं पदस्य विषये इति नास्ति कस्य उद्योगः उच्चः तत् उच्चः नीचतु एतयोः कः अधिकं व्यायामं करोति तत् करोतु मोहनस्य अपेक्षया अर्जुनः अधिकं व्यायं करोति सदाः धन्यवादाः काण्ट्रडेक्षन् अधिकं भवति तस्य तत्विक् दृष्ट्या तत्र व्याकरणदृष्ट्या तु सत्यं परन्तु तत्विक्दृष्ट्या तत्र योग्यं नास्ति इति पठति वा भगिनी <coughs> आवरणे विद्यमानस्य पदस्य साहाय्येन वाक्यानि लिखतु उदाहरणं मम गृहस्य अपेक्षया मम गृहस्य अपेक्षया विद्यालयं विशालं अस्ति जयपुर् जायप, जयपुर् नगरम् अपेक्षया नगरं बृहत् अस्ति जयपुरस्य अपेक्षया वा जयपुरनगरस्य अपेक्षया इति जयपुरनगर षष्ठीविभक्तिः तु भवेत् एव जयुरस्य अपेक्षया नो चेत् जयपुरनगरस्य अपेक्षया मालती अपेक्षया जयश्री उन्नता अबर् किमर्थम् उन्नता इति उन्नता हाँ. मालती अस्ति जयश्री अस्ति मालती इकारान्तस्त्रीलिङ्गी नदी नदीवत् नदीशब्दस्य षष्ठी का षष्टिविभक्त्यन्तपदं कालत्याः का मालत्या मालत्या वा मालत्याः अपेक्षया नद्याः तथैव मालत्याः अपेक्षया जयश्री उन्नताः उन्नताः इति उन्नता किमर्थं श्रीलिङ्गि उन्नतः इति अस्ति चेत् पुल्लिङ्गी भवति अत्र जयश्री मालती श्रीलिङ्गि पदं जय श्री इति पदे स्त्रीलिङ्गिपदे अतः तत्र उन्नता इति आगच्छति अग्रिमं पठनम् अपेक्षया लेखनं कठिनम् सम्यक् वा भगिनि पठनं किम् उक्तवती पठनम् अपेक्षया लेखनं कठिनं षष्ठी विभक्तिः कुत्र गच्छति षष्ठी विभक्तिः तु भवेत् एव सत्यं पठनस्य अपेक्षया एकवारं वदतु पुनः एकवारं भगिनि पठनस्य अपेक्षया लेखनं कठिनम् इदानीं सम्यक् अग्रिमम् मोहितस्य अपेक्षया विजयः चतुरः hmm. hmm. सत्यम् अग्रिमम् ग्रन्थालयस्य अपेक्षया मन्दिरं सुन्दरं योग्यं अग्रिमं करोतु अमितस्य अपेक्षया गोविन्दः स्थूलः अग्रिमे कदलीफलस्य अपेक्षया आम्रफलं बहु मधुरं अग्रिमं प्रयागराजस्य अपेक्षया देहरादूनशीतलम् डेह्रादून् सोरि डेह्रादून् खलु तत्र शीतलम् क्षम्यतां चषकस्य अपेक्षया द्रोण्याम् अधिकजलं द्रोणी इत्युक्ते बकेट् चषकस्य अपेक्षया चषक इत्युक्ते ग्लास् चषकः अपेक्षया द्रोण्या अधिकजलम् इति अस्तु भगिनि कूर्मस्य अपेक्षया चषकः शीघ्रं धावति कूर्मः इत्युक्ते सत्तास् चषकः इति रेबिट् हेर् सत्यम् धन्यवादः भगिनी धन्यवादः अस्तु अग्रिममस्ति द्वितीयः पठनबिद्धुम् अस्माकं फेत् नोचे फेत् नोचे इति अस्ति खेत् एकं वाक्यं वदामि धनम् अस्ति चेत् ददातु नो चेत् न ददातु धनम् अस्ति चेत् ददातु नो चेत् न राधा राधाभगिनी इत्युक्ते किं भवति वाक्यस्य अर्थः वक्तुं शक्नोति वा धनमस्ति यदि धनमस्ति तर्हि ददातु अथवा न ददातु इति इत्युक्ते यदि तर्हि चेत् इत्यन इत्येतयोः अर्थः तु समानः यदि तर्हि यदि धनमस्ति तर्हि ददातु यदि तर्हि वा धनमस्ति चेत् ददातु नो चेत् न ददातु अत्र महत्त्वपूर्णबिन्दुः कह, यदि तर्हि एतस्य योजना यदा भवति चेत् तत्र पुनः एकवारं चेत् नो चेत् न योजनीयम् इत्युक्ते यदा अहं वदामि यदि धन धनम् अस्ति चेत् यदि धनम् अस्ति चेत् ददातु hmm. तर्हि नो चेत् न ददातु एवं न भवति यदा यदि यदि तर्हि इति योजनेन वाक्यरचना भवति यदा यदि धनम् अस्ति तर्हि धनं ददातु अन्यथा धनमस्ति चेत् ददातु इच्छा अस्ति चेत् कार्यं करोतु नो चेत् गृहं ग्र इदानीं वदतु अर्थः कः राधा भगिनी इच्छा अस्ति चेत् कार्यं करोतु नो चेत् गच्छतु यदि इच्छा अस्ति तर्हि कार्यं करोतु यदि इच्छा नास्ति तर्हि गृहं गच्छ इति अस्ति एकवारं पुनः एकवारं तस्य किञ्चित् पठनमपि कुर्मः स्क्रीन् उपरि अस्ति चेत् इति अस्ति धनम् इति शब्द दानम् इति धनम् अस्ति चेत् दानं करोमि इति चेत् इति योजनेन वाक्यं सिद्ध्यति अग्रिमं वाक्यं वदति वा राधा भगिनी वृष्टिः चेत् सस्यसमृद्धिः कथं भवति आम् भगिनि वृष्टिः अस्ति चेत् सस्यं समृद्ध भवति सस्यसमृद्धिः भवति एवमपि ृद्धि भवति अग्रिमं निर्वाचनं निर्वाचनम् अर्थं किम् इलेक्शन् ओ, ओ आ, अच्छा निर्वाचनम् अस्ति चेत् कोलाहलं भवति कोलाहलः कोलाहलः भवति धूमपानं करोति चेत् अनारोग्यं भवति अनारोग्यं सम्भवति अनारोग्यं भवति अग्रिम सत्कार्यं करोति चेत् कीर्तिं भवति कीर्तिः भवति कीर्तिः भवति सोरि कीर्तिः पश्यतु कीर्तिं प्राप्नोति एवमपि वक्तुं शक्नुमः परन्तु तत्र कीर्तिम् इति आगच्छति किमर्थं प्राप्नोति कीर्तिं प्राप्नोति okay. इति ah. अग्रिमं uh, विद्युत् uh, अस्ति चेत् uh, दीपं ज्वलति दीपः ज्वलति प्रज्वलति okay. uh, यदा दीपं वक्तुम् इच्छति चेत् तदा दीपं दृश्यते दृश्यते okay. वा दीपं पश्यामि एव ओके okay. उपनेत्रम् उपनेत्रम् अस्ति चेत् पठितुं पट् पठि पठितुं शक्नोति अथवा उपनेत्रं उपनेत्रम् अस्ति चेत् पठति अग्रिमे जलं जलम् अस्ति चेत् वस्त्रशालनं कर्तुं शक्नोति जलमस्ति चेत् वस्त्रशालनं कर्तुं इदानीम् अस्माकं लक्ष्यः तत्र जलम् अस्ति चेत् वस्त्रशालनं कर्तुं शक्नोति तत्तु योग्यम् परन्तु एतादृशी रचना अपि अस्माभिः करणीया कथं जलम् आनयतु नो वस्त्रक्षालनम् न करोमि एवमपि जलम् आनयतु नो चेत् अहं वस्त्रक्षालनं न करोमि जलं नास्ति चेत् जलं नास्ति चेत् कथं वस्त्रक्षालनं सम्भवति okay. एवं तत् चिन्तनं भवेत् अतः अहम् उक्तवती अस्तु धन्यवादः धन्यवादः इदानीं पठति अगोस्ट् महोदय अगोस्ट् महोदय अनन्तरं भारतमहोदय अगोस्ट् महोदय पठति वा नो इति अस्तु भगिनि नो उदाहरणं दृष्ट्वा तादृशानि त्रीणि वाक्यानि लिखतु hmm. उदाहरणम् अवकाशः भवति चेत् आगच्छतु नो चेत् भवतु नो no चेत् मास्तु नो no चेत् मास्तु अत्र so... अवकाशः no अस्ति चेत् आगच्छतु so... नो चेत् मास्तु इत्युक्ते अवकाशः इत्युक्ते हालिडे एतत् वस्त्रम् अपमूल्येन ददाति चेत् क्रीणामि नो चेत् न इत्युक्ते किं कः अर्थः Hmm. Uh, This clothes mm hmm um with a uh, low price. Mm hmm. Hmm. Uh, if if is is given. Mm hmm. Um. Uh, I Then only I will buy green army. Then only I will buy. Else no. Else, no. If it is, if not, ashti che, if it is, no che, if not, else, ah. no. Okay. So, if ah. it is given for less price, then only I will buy. Eh? No. Ah. No, okay. Okay. Avagatam. Okay. Okay. Okay. Avagatam. Agri Mambakyan. Okay. Bhavan, Tatra. Mm-hmm. ये गच्छति चेत् लोकयानं लभ्यते नो चेत् न लभ्यते इफ् इफ् यू एफ्नो को गो कोस् दियर् इति वक्तुं शक्नुमः पब्लिक् ट्रान्स्पोर्टेट् बस् इति वक्तुं शक्नुमः in the at, at the time they're at the, the right time mm -hmm. uh, you you'll have to say you can can't catch the the, the birds ah, ah, ah. okay if not you you cannot catch the the birds second you okay udaranam dhrushwa tadrushani trini vaapkya ne likhatu तत्र उदाहरणार्थं वाक्यत्रयं दत्तम् इतोपि एकं वाक्यं स्वस्य भाषायाम् वदति वा भवानेव रचनां करोतु चेत् वा नो चेत् उपयुज्य वाक्यरचनां करोतु पुस्तकं पाठति चेत् भवान् चतुरः अस्ति चतुरः भवति इति सत्यम् उत्तमम् उत्तमं चतुरः भवति सत्यम् इतोपि वक्तुमिच्छति वा Mm. Mm. Mm. जलं पिबति नो चेत् स्वास्थ्यं न अस्ति जलं पिबतु अन्यार्थकरूपेण जलं पिबतु नो चेत् स्वास्थ्यं स्वास्थ्यरक्षणं न भवति जलं पिबतु उत्तमम् उत्तमम् इतोपि इच्छति वा, वा कार्यं करोति नोचेत चेत् वेतनं वे न लभ्यते अरे वण्डर्फुल् वण्डर्फुल् कार्यं करोतु सम्यक् रीत्या कार्यं करोतु नो चेत् वेतनं न लभ्यते उत्तमम् उत्तमम् उत्तमं महोदय उत्तमं धन्यवादः ऐ एम् वेरि हेपी भारतमहोदय भवान् पठति वा अग्रिमम् आं भगिनि <coughs> भारतमहोदय हा आं भगिनि okay. विरामः अस्ति चेत आगच्छतु नो चेत् अहम् आगच्छामि वदति वा um uh um, shit uh if you if it is a um, holiday or even hmm. day off then only come then only you or else i will come agrimam vayam krutavant parantu upna ekavaram pathatu bhavan okay viram asti cet agacchatu नो चेत् अहम् आगच्छामि अग्रिमं पठतु भवान समये भवान समये आगच्छति चेत् लोक लोकयानं लभ्यते नो चेत् न लभ्यते सम्यक् अग्रिमम् एतत् वस्त्रम् अल्पमूल्येन ददाति चेत् क्रीणामि नो ीणामि नो चेत् अग्रिमं पिता तत्र अस्ति चेत् तं पृच्छतु नो चेत् मातरं पृच्छतु सम्यक् अस्य अर्थ अर्थविषये वदति वा पिता तत्र अस्ति चेत् तं पृच्छतु नो चेत् मातरं पृच्छतु अर्थः कः पिता अस्ति देन् पृच्छतु नो चेत् मातरं पृच्छतु मदर मदर् इति मातरम् माता, माता इदानीं भोजनं परिवेषयति Hmm. खादनं खादामः hmm. नो चेत् क्रीडामः इत्युक्ते hmm. माता भोजनं परिवेशयति इत्युक्ते सवि खादामः अदर्वैस् क्रीडामः Right. अर्थं स्पष्टमस्ति महोदय yeah. भवान् वाक्यरचना करोति वा uh, एकं वाक्यं वदति वा I... प्रकाशः भवति hmm? चेत् hmm? पठामि hmm. नो चेत् न पठामि उत्तमम् उत्तमं महोदय इतोपि वदति वा एकं वाक्यं पाठशाला भवति चेत् अहं गच्छामि नो चेत् न गच्छामि न गच्छामि उत्तमम् उत्तमम् उत्तमम् अस्ति धन्यवादः अस्तु इदानीम् अस्माकं कथायाः समयः कथायाः पठनं कुर्मः तस्मात् प्राक् अस्तु कथा का, कथापठनं भवेत् उत्तमा कथा कः अर्थः वयं पश्यामः अस्तु आरम्भं कुर्मः राधा भगिनी पठति वा Uh, न्देशः प्रतिमा इत्युक्ते स्टाच्युमा uh, प्रतिमा ऐ तत्र प्रतिमा, प्रतिमा, प्रतिमा, प्रतिमा इत्युक्ते ईश्वरः प्रत्यक्षरूपेण वयं द्रष्टुं न शक्नुमः खलु ईश्वरस्य प्रतिमा अस्माकं पुरतः भवेत् चेत् एव वयम् अनुमानं वा तस्य विषये चिन्तनं कर्तुं शक्नुमः निर्गुणनिराकारः ईश्वर इति जनाः वदन्ति परन्तु अस्माकं कृते तादृशी योग्यता नास्ति निराकारईश्वरस्य चिन्तनं वा निर्गुणस्य चिन्तनं तत् वयं न कर्तुं शक्नुमः सामान्यतया सामान्यजनाः तेषां कृते पुरतः प्रतिमा वा मूर्तिः भवेत् तत् सन्देशः इत्युक्ते मेसेज् कदाचित् कश्चन गुरुः शिष्यान् तिस्रः प्रतिमाः दर्शयन् अपृच्छत् एतासां परस्परभेदः कः इति इत्युक्ते किम् एकः गुरुः त्रीणि प्रतिमा दृश्यते तत्र तिस्रः तिस्रः इत्युक्ते पुल्लिङ्गिशब्दः पुल्लिङ्गिशब्दः क्षम्यतां स्त्रीलिङ्गिशब्द त्रीणि इति वदामः चेत् स्त्रीलिङ्गि त्रीणि पुष्पाणि त्रीणि फलानि त्रीणि रत्नानि तिस्रः प्रतिमाः त्रयः पुरुषाः तिस्रः स्त्रियः प्रतिमाः एवं दर्शयन् प्रतिमाः लिङ्गतिस्रः उपयुज उपयुज्य हा यत्र यत्र श्रीलिङ्गी तत्र तिस्रः यत्र यत्र तत्र त्रयः यत्र नपुषकलिङ्गि शब्दः तत्र त्रीणि त्रीणि रत्नानि त्रीणि फलानि एवम् तिस्रः प्रतिमा दर्शयति अनन्तरं पृच्छति अत्र uh, hmm. एतासाम् uh, इति आगच्छति किमर्थं स्त्रीलिङ्गी अस्ति अतः ah. एतासां तासाम् hmm. ता तस्मिन् भवेत् चेत् भवति तस्मिन् तयोः तेषु अत्र तासाम् इति स्त्रीलिङ्गि तासां oh. परस्परभेदः इति okay. अग्रिमे पठतु प्रतिमाः प्रतिमाः परीक्ष्य शिष्याः अवदन् एका लवनिर्मा लवणनिर्माता अपरा निर्मिता अपरा वस्त्रनिर्मिता अन्या शिलानिर्मिता च इत्युक्ते प्रतिमापरीक्षा आफ्टर् एक्सामिनिङ्ग् द स्टाच्यू it uh, uh, they said one is made out of salt lavanam nirmitah uh, one is made out of cloth vastra nirmitah uh, another is made out of stone shila nirmitah uh, samya kutsamaham atra parikshya iti pratyaya smarati va parikshya pariksha लेप् प्रत्ययः लेप् लेप लेप प्रत्ययः okay, लेप आगत्य परीक्ष उपसर्ग अस्ति ईक्षदातु ईक्ष ईश्वर ईक्ष तत्र परि इति उपसर्ग परीक्षिट् एक्सामिनिङ्ग् दट् इस् करेक्ट् परीक्ष शिष्याः अवदन् अस्तु अग्रिमे एताः एताः जले स्थापयत् इति अवदत् गुरुः हु। Uh, Guru uh, says, uh, place it in, the, in water, Jale-stapai, mm. all of them. Shihyehi, mm. uh, Tathaiva, Kritam, all the students do as they've been told. Lavala-mai-jale, mm Vilina-jata, -hmm. the salt statue uh, gets dissolved. Vastra-mai-tu, uh, Vastra-mai-tu. अर्धा सती अपि स्वीयेन रूपेण अतिष्ठत् आर्द्रा आर्द्रा सती आर्द्रा इस् वेट् ओ आर्द्रा सती अपि ओके सो इट् बिकम् हेवि वस्त्र स्टाच्यू बिकम्स् हेवि इत्युक्ते अपि, तथैव तिष्ठति तत्र परन्तु स्वीयेन रूपेण अतिष्ठत् लवणमयी किमभवत् लवणमयीमूर्तेः किम् अभवत् जलेबिल् कम्प्लीट् डिजोल् परन्तु अत्र सन्देहः वर्तते आर्द्रा इत्युक्ते वेट् इति अपि अर्थं भवति किल बेट् एव उक्तवती नेट् वेट् वेट् ऐ मीन्ते ऐ एम् आस्किङ्ग् अबौट् देट् ऐ मीन् वेट् डब्यूइ तदपि अर्थं भवति किल खलु प्लीस् पेन् वन् डब्ल्यू इति वेट् वेट् इति अर्थं भवितुम् अर्हति किल आर्द्र इति इत्युक्ते वेट् wet, wet wet na, डब्ल्यू इति वैट् न तथैव I गेटिङ्ग् वैट् इति ऐ मीन् ऐ मया श्रुतं वेट् डब्ल्यू ए ऐ Na, na, इति श्रुतवती न न तथैव आर्द्र इत्युक्ते बाष्पसहित तत्र जले जले निमग्नः जले निमज्जः अतः आर्द्रम् आर्द्रा सति अपि स्वीयेन रूपेण अतिश तथैव अस्तु अस्तु धन्यवादः अग्रिमं वाक्यं राधा भगिनी शिलाप्रतिमा शिलाप्रतिमा तु जले मज्जनं प्राप्य अल्प अपि विकारं न प्राप्नोत् स्टोन् स्टाच्यू वन् इट् वास् इमर्स् देर् वाज़् नो चेञ्ज् परिवर्तनं तस्मिन् न कोऽपि परिवर्तनं न किमपि परिवर्तनं दृश्यते तत्र लवणमये प्रतिमायाः कृते किम् अभवत् जले सर्वतः विलीनीकरणम् अभवत् वस्त्रमये प्रतिमा तस्याः किमभवत् आर्द्रा परन्तु स्वीयेन रूपेण अतिष्ठत् अत्र शिलाप्रतिमपरिवर्तनम् एव नास्ति तत्र अस्तु इति सम्यक् धन्यवाद। भगिनी धन्यवादः धन्यवादः अम्बिकापतिमहोदय अग्रिमं पठति वा एतत् विवृत्य एतत् निवृत्य गुरुः अवदत् जलं ज्ञातम् इव लैक्स् लैक् नालेज् लैक् जलं तत्र नालेज् इस् कन्सिडर् एस् ए ओशन् सो जलम् इति ज्ञानम् इव महासागर आर्णव समुद्रः ज्ञानसागरः तत्र जलं ज्ञानम् इव अग्रिमम् एकनिमिषं तत्र विवृत्य इति प्रत्ययस्य विषये वदति वा विवृत्य निवृत्य एतत् निवृत्य फिनिशिङ्ग् आफ्टर् फिनिशिङ्ग् हा परन्तु प्रत्ययस्य विषये वदति वा निवृत्य ल्यप् प्रत्यय विवृत्य विवरणं करोति विवृत्य भृतु तत्र विवृत्य वि इति उपसर्ग इति अस्तु शिलाप्रतिमा इव भवन्ति केचन तं शिलाप्रतिमा इव सं लैक् स्टोन् स्टेच्यु सम्यक् ज्ञाने निमज्ज निमज्जय तन्नाम ज्ञानं प्राप्य अपि स्व क्रिया. किमपि परिवर्तनं न प्राप्नुव प्राप्नुवन्ति ते ज्ञाने निमज्जय हेविङ्ग् ड्रौण्ड् इन् इन् नोलेज् ड्रौण्ड् इन् नालेज् तत् नाम ज्ञानं प्राप्य अपि Also... तत् तत् नाम इट् इस् इट् इस् सेड् दट् नालेज् इस् गेन्ड् बै दट् आल्सो परन्तु किमपि ज्ञाने निमज्य तत्नाम ज्ञानं प्राप्य अपि स्वस्मिन् किमपि परिवर्तनं न इत्युक्ते यथा पाषाणप्रतिमा जले मञ्जनं प्राप्य अपि तथैव तिष्ठति तथैव केचन जनाः ज्ञाने निमज्य अपि ज्ञानं प्राप्य अपि किमपि परिवर्तनं न प्राप्नुवन्ति ते न किमपि परिवर्तनं तथैव आचरणं कुर्वन्ति तथैव वदन्ति तथैव तेषां विचाराणां विचारेषु अपि न परिवर्तनं तथैव वदति इति एकः प्रकारः अग्रिमं दत्तमस्ति तदपि पठतु अहङ्कारादिकारणतः अहङ्कारादिकारणतः ते शिला शिलावत् भवन्ति अहङ्कारवत् विकारवत् ते शिलावत अहङ्कारादिकार विकारणतः अलङ्कारावत् विहारणतः लैक् द चेञ्ज् लैक् सेल्फ् एस्टीम् ते शिलावत् भवति दे दे आर् लैक् स्टोन् बिका अहङ्कारादिकारो प्रैड् एण्ड् देन् तत्र लोभः अस्ति दम्भः अस्ति विकारः अस्ति तेषां कारणात् किं भवति ते शिलावत् भवति न परिवर्तनं वेरिट् आफ़् थिङ्ग् नो चेञ्ज् इति वयं तु एतादृशाः न स्याम् वयम् एतादृशः न स्याम् सो तथा तथैव आचरणम् अस्माभिः न करणीयम् एतादृशः न स्याम् न भवामह वयम् एतादृशः न भवामः इति वदति इत्युक्ते पाषाणप्रतिमा हा वदतु अहंकार भावना मनसी दंभ भावना मनसी भिन्ना विकारा अस्यां स्थित पिवर्तन न शक्य कथम पिवर्तन प्रतिद्यय कौती गीतापठन कौती मंदरमी ग्छति पर मनसी ये त्यजनम यदि न भावर्तन न शक्य अहम ब्रह्मास्मी की वदा पर अहं करोमि इति अभिमान अहं ब्रह्मास्मि इत्युक्ते तत्र ब्रह्म ब्रह्मणः युज् इति न अहम् एव सर्वं करोमि अहम् एव सर्वश्रेष्ठः इति भावनया यदि वर्तं भवति वर्तनं भवति चेत् परिवर्तनं न भवति इति अस्तु धन्यवादः वयम् एतादृशाः न वयं तु एतादृशान् न स्यामः वयम् एतादृशः न भवामः अन्तिमं वाक्यमस्ति तदपि पठतु अन्तिमम् एतस्मिन् पृष्ठे तत् अन्तिममपि पठतु वस्त्रनिर्मितप्रतिमा इति अन्तिम वस्त्रनिर्मितप्रतिमा किं तत्त्वं ज्ञापयति कश्चन शिष्यः अपृच्छत् तत्र तिस्रः प्रतिमाः तिस्रः प्रतिमा वस्त्रनिर्मितप्रतिमाः किं तत्त्वं ज्ञापयति ज्ञापयति इत्युक्ते किम् अम्बिकापति महोदय तत्र ज्ञापयति तत्र हा एतत् निजन्तरूपमस्ति ज्ञापयति किं ज्ञानं ददाति इति किं बोधयति किं ज्ञापयति किं तत्त्वं ज्ञापयति कस्य बोधः किं ज्ञापयति किं पाठयति किं बोधयति इति निजन्तरूपं वस्त्रनिर्मितप्रक्रिया अस्तु धन्यवादः महोदय धन्यवादः अग्रिमे वीणा भगिनी पठति वा हा भगिनि सा स्वस्य अन्तः स्वीकरोति केचन ज्ञानपिपास्तावन्तः भवन्ति ते गुरुमुखेन ज्येष्ठानां व्यवहरेण पुस्तकाध्ययन पुस्तकाध्ययनेन वा mm. ज्ञानं सम्पादयन्तः तदनुगुणम् आचरन्तः विकासमार्गे अग्रे गच्छन्ति mm. जन्मना एव अतिविशिष्टाः असन्तः अपि एतादृशाः स्वविकासस्य प्रयत्नमानाः यथाशक्तिविकासं प्राप्नुवन्ति सा जलं स्वस्य अन्तः स्वीकरोति दे एब्सार्ब् द वाटर् इन्टु देम् दट् मीन्स् दे एब्सार्ब् दं योग्यं योग्यम् स्वस्य अन्तः स्वीकरोति जलं स्वस्य अन्तः स्वीकरोति इत्युक्ते देर् रेडि टु एर् श् वाट् यु आर् सिङ्ग् तथैव दे आर् रेडि टु ते ज्ञान ज्ञानग्रहणं तु कुर्वन्ति ज्ञानग्रहणं mm -hmm. कुर्वन्ति पाषाणवज् ये ये जनाः सन्ति ते किं कुर्वन्ति कस्यापि mm -hmm. ग्रहणमेव नास्ति ना, ना, ना, ना तत्र भेदः कः एकम् अत्र वक्तुम् इच्छामि एकं स्मरामि एसाप्शन् एब्सार्शन् द्वयोः मध्ये भेदः अस्ति खलु तत् सुपर्स्फिषियल् लेयर् एवं परन्तु अत्र स्वीकरणम् अन्तः स्वीकरणं तत्र अन्तः स्वीकरोति तत्र केवल तत्र उपरि उपरि इति नास्ति उपरि उपरि केवलं ज्ञानम् अस्ति इति न ज्ञानग्रहणं तु भवति ज्ञानस्वीकरणमपि भवति अग्रिमेवाक्ये किं दत्तमस्ति केचन ज्ञानपिपासावन्तः भवन्ति अहं तम् आर् रियली इण्ट्रेस्टेड् टु नो दे आर् वेरि हङ्ग्री फार् ज्ञ नालेड् नालेज् पिपासा, hmm. really, uh, uh, uh, th पिपासा uh, पातुमिच्छा बुभुक्षा yes, खादितुमिच्छामि खादनं पिपासा ड्रिङ्किङ्ग् पिपासावन्त ज्ञानलालसा ज्ञानपिपासा फस्टि फार् मेलेज् इति केचन इत्युक्ते हङ्ग्रिपाटर् इति ज्ञानपिपासावन्तः भवन्ति ते खेन ज्येष्ठानां व्यवहरेण पुस्तकाध्ययनेन वा ज्ञानं सम्पादयन्तः नालेड् इन् आल् मीन्स् बै त्रु गुरु फ्रम् एल्डर्स् एण्ड् फ्रम् बुक्स् आल्सो sampadayantah um, they acquire they acquire knowledge tadanu gunam mm acharantah -hmm. yeah, vikasamargena agre by doing so uh, in in the, in the they, they go further in the path of enlightenment satyam uttamam atra sampadayantah acharantah tatra shi shatru pratyay act is going on Mm -hmm. सदैव ते विकासमार्गेण अग्रे गच्छन्ति किं कुर्वन्तः ज्ञानं सम्पादयन्तः तद्गुणम् आचरन्तः अस्तु तत्र mm -hmm. यथा वस्त्रनिर्मिता प्रतिमा तथैव तेषाम् आचरणे अपि नालेज् इति इत्युक्ते वट् एवर् नालेज् यः एक्वायर्ड् तत् दृश्यते आचरणे किमपि नास्ति एवं नास्ति आचरणे mm -hmm. अपि तत् दृश्यते ज्ञानं सम्पादयन्तः आचरन्तः विकासमार्गे ते प्रचलन्ति अग्रे गच्छति इति अग्रिमं वाक्यं महत्त्वपूर्णम् इति पठतु जन्मना जन्मना एव अतिविशिष्टाः असन्तः अपि एतादृशाः स्वविकासस्य सवि विकासाय hmm. प्रयता प्रयतमानाः यथा hmm. प्रयतमानाः यथाशक्तिविकासं श... प्राप्नुवन्ति इत्युक्ते बन्धोदयार् <laughs> स्पेशल् बै डूयिङ्ग् आल् दीस् आल् दीस् थिङ्ग् इव अतीव महत्त्वपूर्णः जन्मना एव अतिविशिष्टाः असन्तः अपि जन्मना केचन जनाः विशिष्टान् गुणान् प्राप्नुवन्ति ध्वनेः विषये स्वरमाधुर्यमस्ति वा सौन्दर्यमस्ति वा बुद्धेः चातुर्यमस्ति जन्मना एव हेरिडिटरी भवेत् वा गोड्स् ब्लेसिङ्ग् वोटेवर् जन्मना एव केचन जनाः अतिविशिष्टाः असन्तः अत्र अतिविशिष्टान् गुणान् ते न प्राप्नुवन्ति जन्मना तर्हि जन्मना एव अतिविशिष्टाः असन्तः अपि एतादृशाः स्वविकासाय प्रयतमानाः प्रयतमानाः अत्र अस्ति शान च प्रत्ययः तत्र शत्रु शान कृते अर्थः समानः परन्तु प्रयतमानः शत्रुः कदा आगच्छति शत्रुप्रयत् ददा एक्टिस् गोयिङ्ग् ओन् सेमिल्टेनेसी परस्मैपदीधातूनां कृते परन्तु शान च कदा आगच्छति आत्मनेपदिधातूनां कृते ते प्रयतमानाः निश्चयेन ते प्रयत्नं कुर्वन्ति यथाशक्तिविकासम् अपि प्राप्नुवन्ति ते प्रयत्नेन निष्ठया वा तत्र कष्टेन ते विकासं प्राप्नुवन्ति जन्मना अतिविशिष्टाः गुणसमुच्चय अतिविशिष्टं गुणसमुच्चय तेषां समीपे नास्ति परन्तु कष्टेन यथाशक्तिविकासं ते प्राप्नुवन्ति महत्त्वपूर्णं वाक्यम् एष एतत्सर्वं ये जनाः ज्ञानं स्वीकरोति ज्ञानस्य उ ज्ञानविषयकः अध्ययनं कुर्वन्ति आचरणे अपि तथैव आचरणं कुर्वन्ति ते विकासमार्गे अग्रे गन्तुं शक्नुवन्ति इति विषयः अस्तु एतत् सर्वं कस्य वदतु शक्नोति वा हा हा is जन्मना इस् बै बर्त् फ्रोम् बर्त् इस् ओम् बर्त् सम् पीपल् आर् नाट् दे डोण्ट् अक्वायर् नलेज् बै बर्त् इवन् दो दे डोण्ट् अक्वायर् दे लर्न् फ्रम् हार्ड् वर्क् एण्ड् देन् प्रोसीड् टु I get knowledge, progress. एव जन्मना तत्र जन्मना इति तृतीयान्तपदमस्ति अत्र प्रयतमानः जयन्तिभगिनी भवती स्मरति वा प्रयतात्मनः इति गीतायामस्ति जयन्तिभगिनी प्रय प्रयतात्मनः इति अस्ति खलु भगवद्गीता त्मनः सत्यं तत् प्रयतमानाः जनाः यथाशक्ति विकासं भगवद्गीतायाः साररूपेण तथैव अस्ति जन्मना अतिवि अतिविशिष्टाः गुणाः मा भवन्तु परन्तु कष्टेन प्रयत्नेन विकासं प्राप्नुवन्ति जनाः इति अस्ति उत्तमम् <tum>, उत्तममस्ति वीणा भगिनी धन्यवादः अम्बिकापतिमहोदय वीणा भगिनी अग्रिमं तत्र रमणी भगिनी पठति वा जलेविलीना तथा <coughs> जलेविलीना लवणमयी प्रतिमा किं सङ्केतयति अपरेण शिष्येण पृष्टम् एतादृशा एतादृशाः भवन्ति ज्ञानिनः एते एक प्रश्नः कः भगि अपरेण शिष्येण प्रश्नः कः किं पृष्टं जले विलीना जले विलीना लवणमयीप्रतिमा किं सङ्केतयति सङ्केतयति इत्युक्ते तत्र किं बोधयति इति किं सूचयति इति एतादृशाः भवन्ति एतादृशाः ज्ञानिनः एते प्रतिदिनम् अपि ज्ञानम् अर्जयन्तः तदनुगुणम् आचरन्ति hmm. सत्त सत्त्वविलोभं सत्यविलोपं साधयन्तः hmm. ते ज्ञानरूपताम् एव प्राप्नुवन्ति hmm. निरन्तरं ज्ञानविकासाय प्रयतमनाः ते विकासमार्गे अग्रगामिनः भवन्ति अहङ्कारगर्वादिकं hmm. तेषु लेशतः अपि न भवति hmm. इत्युक्ते इदानीं वदतु किं दत्तमस्ति uh, लवणमयीप्रतिमासङ्केत तत्र तस्य वदतु स्वस्य ज्ञानिन ज्ञानिनः लवणमयीप्रतिमा एव अस्ति ते सन्ति सन्ति सन्ति ते प्रतिदिनं प्रतिदिनं ज्ञानम् अर्जयन्ति अर्जयन्तः तत्रापि शत्रुप्रत्ययः अर्जयन्त मत्लब् प्राप्तकर्ण इति ज्ञानम् अर्जयन्तः अर्जयन्ति ज्ञानं प्राप्नुवन्ति अनन्तरम् एकनिमिषं किञ्चित् वदामि तत्र ज्ञानम् अर्जयन्तः तद्गुणम् आचरन्ति अत्र पश्यन्तु सर्वे अस्माभिः स्मरणीयम् अस्ति तत्र ज्ञानम् अर्जयन्तः आचरणम् इत्युक्ते अस्तु मम अध्ययनम् इदं समापयामि तत् अध्ययनम् अध्ययनम् अभवत् इदानीम् आचरणम् एवं नास्ति ज्ञानस्य अर्जन् अर्जना अर्ज ज्ञानप्राप्तिः ज्ञानप्राप्तिः तद्गुणम् आचरणं तदुसारेण आचरणं ज्ञानम् अर्जयन्तः oh, इट्स् ए लैफ़् लाङ्ग् प्रोसेस् ज्ञानप्राप्तिः इदानीं समाप्तम् इति न ज्ञानप्राप्तेः समाप्तिः कदापि न भवति प्रतिदिनं प्रतिदिनम् प्रतिक्षणं ज्ञानम् अर्जयन्तः तदनुसारेण ते आचरणं कुर्वन्ति अग्रिमम् तत्त्वविलोपं साधयन्तः ते ज्ञानरूपताम् एव प्राप्नुवन्ति ते ज्ञानिनः तत्त्वविलोभं साधयित्वा ज्ञानरूपेण एव ीवन्ति सत्त्वविलोपं सत्वविलोपं पश्यन्तु लवणस्य जलेन सह मिश्रीकरणं भवति चेत् किम् अवशिष्यति लवण रूपे अवशिष्यति वा न तत्र सत्त्व स्वभाव स्वभावस्य विलनीकरणं स्वभाव इत्युक्ते मम अहंकार मम वृथा मृथा अभिम आकांक्षा मा आसक्ति दुर्गुण विलोपम दुर्गुण विलीकरण एव ज्ञानूपता यथा लवणं स्वस्य रूपं विलोपं तस्य विलोपं साधयति अनन्तरं जलरूपम् एव प्राप्नुवन् प्राप्नोति तथैव ते जनाः सत्त्वविलोपं साधयन्तः ते ज्ञानरूपताम् एव प्राप्नरूपताम् एकताम् एवं ज्ञानरूपता एकत्रीकर एव प्राप्नुवन्ति निरन्तरम् अग्रिमं ज्ञानम् अग्रिमं निरन्तरम् ज्ञानविकासाय प्रयतमानाः अग, ते विकासमार्गम् अग्रगामिनः भवन्ति निरन्तरम् इत्युक्ते निरन्तरं निरन्तरं डैली कण्टिन्युस्लि अग्रगामि अग्रे एव अधोगामिनः इत्युक्ते बेक्वर्ड् मूमेण्ट् अग्रगामिनः फावर्ड् मूमेण्ट् अग्रगामिनः भवन्ति निरन्तरं सततं सर्वदा ज्ञानविकासाय प्रयतमानाः प्रयत् प्रयत्नं प्रयत् प्रयत्नं कृतवन्तः कृतवन्तः प्रयतमानः अत्रापि शानच् सर्व, सर्वेषु स्थलेषु उत्तमप्रकारेण शत्रु शानच् प्रत्ययानां योजना प्रयतमानाः तत्र गोयिङ्ग् ओन् ते विकासमार्गे अग्रगामिनः भवति अग्रगामिनः अपि अस्तु तत्र वच्छामि इदानीं फुल् स्टाप् इति नास्ति अग्रगामिनः ना, आल्वेस् गोयिङ्ग् फार्वर्ड् इति अन्तिमं वाक्यम् एतस्मिन् परिषदे अहङ्कार तत्पठतु अहङ्कारगर्वादिकम् तेषु लेशतः अपि भवति न ज्ञानिन अहङ्कारः न भवति गर्वः अपि न भवति लेशतः अपि अंशतः अपि लेश लघुमालेश अपि नास्ति नम्र नम्रभावनया भावन, भाव, भावनया.. ते आचरणं कुरु कुर्वन्ति अस्तु धन्यवादः अन्तिमं धन्यवादति वा वयं बहुधा पठामः तत् पठति वा भगिनी पठामि भगिनि वयं बहुधा पठामः उपदेशान् शृण्मः शृणुमः अनुभवान् प्राप्नुमः च एतेन प्रकारेण प्राप्तं ज्ञानम् अस्माकम् आचरणे अपि परि परिदृश्यते वयं किमपि ऐ मीन् सत्क सत् विषयं उपदेशान् शृणुमः चेतपि अनुभ अनुभवान् प्राप्नुमः चेतपि अस्माकं जीवनस्य एतस्मिन् उपयोगं कर्तुं चेत् चेत् ज्ञानं प्राप्नुमः अस्माकम् आचरणेन वयम् <coughs> एतादृशं दर्शनं दर्शयामः ज्ञानविस्तारानुगुणं mm. ज्ञानविस्तारान् स्वस्य विकासं सम्पादयन्तः वयं जीवने जीवने वृद्धिं प्राप्नुयाम एतदेव mm. भैन्यः उक्तवती ज्ञानविस्तारान् अनुगुणं वयं स्वस्य ज्ञानं विस्तारण विस्तारणं कुर्वन् अस्ति चेत् एव अस्माकं mm. स्वस्य विकासं सम्पादय सम्पादयितुं शक्नुमः शक्नु वयं जीवने mm. वृद्धिम् अपि प्राप्नुमः तदा mm. एव जीवनस्य सात् जीवनस्य सात् क्यम् इति अवदत् गुरु इति तदेव अस्माकं जीवनस्य सार्थकं भवतु इति गुरु वदति जीवनस्य सार्थक्यं कुत्र अस्ति सारम् ऐ मीन् ज्ञान ज्ञानस्य केवलं तत्र ज्ञानस्य सङ्कलने जीवनस्य सार्थक्यम् इति न अहमेव सर्वं जानामि मम कस्यापि आवश्यकता एव नास्ति इति विचारेण अपि न सार्थक्यं परन्तु सार्थक्यं कदा भवति भगिनी वदतु अस्माकं जीवने अनुचार अनुचरामः चेत् एव भवति आचरणे तत्र आचरणे अनुभवान् वा तत्र ज्ञानप्राप्तिः तु hmm. भवति एव ज्ञानं तत्र गुरुमार् गुरु गुरु मुखे गुरुमुखेन वा आच्येष्ठानां वा mm. शास्त्रैः ज्ञानस्य mm. सङ्घटनं तु भवति एव परन्तु mm. mm. विस्तार अनुगुणं स्वस्य mm. विकासं सम्पादयन्तः एव वयं जीवने mm. वृद्धिं प्राप्नुयाम् इति दत्तमस्ति बहिनी एतस्मिन् समये एक श्लोकं मम मनसि वर्धते यद्यदाचरति श्रेष्ठः तत्तद्वे ते इतरो जनाः तयत्प्रमाणं कृते लोकस्य सनुवर्धते एतदपि असक्तः सततं कार्यं कर्म समाचर असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः इति एक एकवा एकश्लोकम् वदामि तदपि उक्तमेव एतस्य समये अहङ्कारविमूढात्मा कर्ता अहम् इति मन्यते इति अहङ्कारविमूढात् विमूढात्मा तत्र शब्दस्य योजना कथं भगवतः अहङ्कारात्मा विमूढ मूर्खः इति अहङ्कारेण मन लिप्तः एव मग्न निमज्ज तत्र अहङ्कार उत्तमम् उत्तमं बहु उत्तमं धन्यवादः भगिनि धन्यवादः इदानीं तत्र अत्र एकम् वक्तुमिच्छामि वयं mm. सर्वे संस्कृतभाषायां निमग्नाः तिदृशः लवणप्रति लवण लवणप्रतिका लवणप्रतिमा इव mm. एतस्मिन् सले अहम् एकं वक्तुमिच्छामि मम आनन्दस्य विषयः संतोषस्य विषयः अस्ति एषः अस्माकम् इदानीं यदा वयम् आरब्धवन्तः भाषितसंस्कृतं तत्र अस्माकम् अद्यदिनस्य सप्तचतुर्विंशत् इति पाठः सप्तचतुर्विंशत् अनन्तरं फोर्टि 48, 49, 50 फिफ्टि पर्यन्तं वयं स्पोकन् संस्कृतविषयस्य पोर्शन् समापयितुं शक्नुमः अनन्तरं किं करणीयं तस्य विषयस्य मया सूचना प्राप्ता तत् एव मम सन्तोषस्य विषय अतीव आनन्दस्य विषय यः इव अहम् इष्टवती गणे स्थापयामि इति परन्तु अनन्तरं चिन्तितवती तत् समक्ष साक्षात् एव वदामि अनन्तरम् अस्माभिः गीतासोपानम् भागप्रथम तस्य आरम्भं करणीयम् अस्ति अस्तु गीतासोपानम् सत्यम् तत्र गीतासोपानम् इत्युक्ते गीतायाः आधारेण केचन व्याकरणबिन्दवः सम्भाषण अपि तत्र अन्तर्भूतः सम्भाषणस्य अपि विचारः भवेत् अनन्तरं व्याकरणस्य अपि विचारः भवेत् तत्र किमपि तत्विक्दृष्ट्या अपि चिन्तनं भवेत् एतत् सर्वं भविष्यति अनन्तरं सो वि आर् इलिजिबल् फार् देट् गीतासोपान् पार्ट् वन् 1 आफ्टर् कम्प्लीटिङ्ग् स्पोकन् संस्कृत् आल् देसन्स् सो टुडे दिस् इस् फोर्टि सेवेन् फोर्टि एट् फोर्टि नैन् फिफ्टि अनन्तरं गीतासोपानं पार्ट् वन् तत् पि डि एफ् एट्रा ऐ विल् शेरिट् औन् द ग्रुप् एव्रिबडि प्लीज् जायिन् फार् देट् अस्तु निश्चयेन वेरि इण्ट्रेस्टिङ्ग् भगिनी बहु रुचिकरम् अस्ति गीता शब्दं गीतावार्तां प्राप्तम् एव अस्माकं जीवनस्य प्राप्तम् अनन्तरं तत्र पाठ्यपुस्तकं यत् अस्ति तदपि उत्तमप्रकारेण लिखितम् अस्ति Mm. उत्तमप्रकारेण तत्र कथं व्याकरणस्य अवगमनेन बोधेन किं भवति अर्थनिष्पादनं कथं भवति उत्तमप्रकारेण तत् वयं कुर्मः शनैः बहु उत्साहं ददाति <laughs> <laughs> <laughs> निश्चयेन कुर्मः ह्यः एव अहं चिन्तितवती तत्र गणे स्थापयामि परन्तु तत्र पोस्ट् मध्ये तत् सन्तोषं न दृश्यते इति अहं चिन्तितवती पुरतः एव वदामि सर्वेषां पुरतः सत्यं सत्यमेव भवत्याः भवत्याः मुखेन वयं सुनवन् सुसातः <laughs> mm. <laughs> um, फीलिङ्ग् अस्ति भगिनि भवत्याः महोदये श्रुत्वा बहु बहु सम्यक् उत्तमम् चिन्तयामि अस्तु सर्वेषाम् अगस्ट् महोदय भवान् श्रुतवान् वा आगस्ट् महोदय भारतमहोदय राधा भगिनी वीणा भगिनी न श्रुतवान् वा अस्तु एवम् एवं श्रुणोतु एकवारम् इदानीम् अस्माकं फोर्टि सेवेन् नम्बर् लेसन् इस् गोयिङ्ग् सिलाबस् फोर्टि सेवेन् तदनन्तरं फोर्टि एय्ट् 48, 49, 50, इति भवति अनंतरम किं करणीयं किमपि न करणीयं वा न अद्यदिने एव वयं दृष्टवन्तः खलु अस्माकं लवणप्रतिमायाः कृते वर्तनं करणीयमस्ति तदनन्तरं गीता गीतासोपानम् इति एकम् अध्ययनस्य पुस्तकमस्ति एकः विषयः इति गीता गीतासोपानं प्रथमः भागः इत्युक्ते गीता आधारीकृत्य गीतायां ये श्लोकाः सन्ति तान् आधारीकृत्य अस्माभिः व्याकरणबिन्दवः किञ्चित् वाक्यरचना अर्थबोधनं सात्विकरूपेण चिन्तनम् एवं सर्वं करणीयमस्ति एतस्मिन् वर्गे एव अनन्तरम् इति विषयः इदानीम् अवगतं वा नेक्स्ट् इस् आफ़्टर् फिफ़्टि आफ़्टर् फिफ़्टि आफ़्टर् वि फिनिश् फिफ़्टि क्लासेस् टु इस् फोर्टि सेवेन् सो फिफ़्टिल् बि देट् ऐ एम् प्लानिङ्ग् फिफ़्टि वन् विल् बि गीतासोपान after this the 50 class that any is idea skin is us what we we want to study it. sorry no i'm not getting prashnah kah uh. ah any is is saying what we we, we study ah uh, prashnah na avagatam okay. maya kya mai tum bagini? Ah kim kim wakt tum ichhti? Um <laughs> I I don't understand uh, the doctor. Yeah of after the... after three more lessons we are going to start geeta lessons. We are going to uh learn sanskrit through geeta. Ah that's what that, that's ah. what bagini said yes. It's okay. For me. Ah very nice. Ah that's what that's what I want to her I want to hear that solely from you. तस्य गीता अत्र किमस्ति गीतासोपानं पुस्तकस्य विषये एकवारं वदामि तत् पी डि एफ़् अनन्तरम् अपि प्र अहं प्रेषयामि तत्र फिलोसोफ़ि <coughs> इन् देट् no परन्तु अर्थबोधम् अर्थबोधनस्य विषये व्याकरणस्य विषये तन्त्र वाक्यरचना अपि तत्र अस्ति गीतासोपानं <coughs> पार्ट् वन् गीतासोपानं पार्ट् टु अस्ति अनन्तरं गीताप्रवेश् गीताप्रवेश् पार्ट् वन् गीताप्रवेश् पार्ट् टु गीताप्रवेश् टु पायिण्ट् वन् गीता प्रवेश् टु पायिण्ट् टु एतत् सर्वमस्ति लाङ्ग् जर्नी इति परन्तु अस्माकं कृते प्रथमम प्रथमं सोपानं गीतासोपानं प्रथमः इति अस्तु इदानीम् अवगतं स्पष्टमस्ति महोदय अवगतं भगिनि उत्तमं धन्यवादः धन्यवादः धन्यवादः भारतमहोदय स्पष्टमस्ति Ah, yes. so, uh, आगस्ट् महोदय भारतमहो महोदय द्वयौ कुत्र कुत्र वसति आगस्ट् ah. महोदय अहं मन्ये तत्र अगस्ट् महोदय तत्र मातृभाषा अगस्ट् महोदयस्य मातृभाषा स्टेट् इन् पोर्तुगाल् अगस्ट् महोदय भवान् कुत्र निवसति मध्ये भारतमहोदय कुत्र निवसति युनैटेड् स्टेट्स् अस्तु सर्वे आगच्छन्तु वयं समापय सन्तुष्टः सन्ति भगिनी वेरि हेप्पी इट् वुड् बि मै प्लेज् मै गोल्डन् अपोर्चुनिटि टु बी विन्स् अगेन् तत् परीक्षा सर्वे पठन्ति बेनि एकं वदनीयम् अस्माकं तमिळ्नाडुमध्ये अद्य पोङ्गल् पोंगल, पोंगल मीन् I mean, पोङ्गल् पोङ्गल् इत्युक्ते बावति, स्वीट् भवति किल भवती स्वीट् पोङ्गल् पोङ्गल् अपेक्षया स्वीट् वार्ताम् उक्तवती अतिसत्यम् अतिसत्यं सत्यं तत् अपेक्षया शब्दस्य योजना अपि भवता उत्तमम् उत्तमम् अस्तु समापयामः शान्तिमन्त्रम् अमरवती महोदय शान्तिमन्त्रं वदति वा पठ एकवारं शान्तिमन्त्रं ओम सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाद् भवेत् ॐ शान्तिशान्ति शान्तिः हरिः ओम् तत्सद् श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादाः